का okay. पृथक् पृथक् सभो ी प्रियचिकीर्षवः पार्थ पश्येतान् समवेतान कुरुनिते तत्रा पार्थ पितृनथ पिता महान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् सता श्वशुरान् सेनयोरुभयोरपि तान् समीक्ष्य स कौन्तेय सर्वान् बन्धूनवस्थितान् कृपया परया सम्बन्धिनस्तथा एतान्नहन्तुमिच्छामि न तोऽपि मधुसूदन अपि तैलोक्यराजस्य एत पि <youtube> जनार्दन कुलक्षये na no. श्रीमद्भगवद्गीता सपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुन संवादे अर्जुन विषादयोगो नाम प्रथमोऽध्यायः